गरुडपुराणम् आचारकाण्डम् अध्यायम् 23 त्रि सूत उवाच शिवार्चनम् प्रवक्ष्यामि धर्मकामादिसाधनम् त्रिभिर्मन्त्रैराजामे तु स्वाहान्धै प्रणवादिकैः ओम् हाम् आत्मतत्त्वाय विद्यातत्त्वाय हीम् तथा ॐ हों शिव तत्त्वा यस्वाहा हृदा स्याश्रोत्रवन्दनम् भस्मस्नानं दर्पणम् च ॐ हां स्वाहा सर्वमन्त्रकाः सर्वे देवाः सर्वमुनिर्नमोऽन्तो वौषदन्तकः स्वधान्ताः सर्वपिदरस्वाग्धान्ताश्च पितामहाः स्वर्धान्ताश्च पितामहः ॐ हा। हां प्रपिदामहेभ्यस्तथा मादामहादयः हा। हां नमः सर्वमादृभ्यस्तदस्यात्पाणसंयमः आचामम् मार्जनम् चाधो गायत्रीम् च जपेस्तदफां सन्महेशाय विद्महे वाग्विशुद्धाय धीमहि तन्नोरुद्रप्रचोदयात् सूर्योपस्थानकं कृत्वा सूर्यमन्त्रय प्रपूजयद ॐ हां ह्रीं ॐ हां ह्रीं हूं हैं हौं हिवसूर्याय नमः ॐ हं खगोल्काय सूर्यमूर्तये नमः ॐ ह्रां ह्रीं स्वसूर्याय नमः दण्डिने पिङ्गले स्वादिभूतानि च ततस्मरेद अग्नयादौ राध्य परमं सुखं यजेत्पद्मां चराम् दीप्ताम् ह्रीं सूक्ष्मां ह्रूं जयां च रेम् भद्राम् च रैम् विभूतिम् रोम् विमलाम् रौ मोधिताम् रं विद्युदाम् च पूर्वादौ ह्रा मध्ये सर्वतोमुखिम् अर्कासनम् सूर्यमूर्तिम् ह्राम् ह्रोम् सप् सूर्यमर्चयेद हृदयार्काय च भुभुवस्वरोम् ज्वालिनीम् खुरम् कवचस्य चास्त्रम् राज्ञाम् च दीक्षिताम् यजेत् सूर्यहृदा सर्वम् सोम् सोमम् मञ्चमङ्गलम् बम् बुधम् ब्रूम् बृहस्पतिम् भम्भार्गवंशम् शनैश्वरम् रम् कम् यजेत् पेदुम् ओम् तेजश्चण्डमर्चयेद सूर्यमभ्यर्च्य चाचम्यकनिष्ठादोङ्गकान्यसेद हां हृच्छिरो हूं शिखा फैं वर्म हौं चैवनेत्रकम् होस्त्रम् शक्तिस्थितम् कृत्वा भूतशुद्धिं पुनर्म्यसेद अर्क्यपात्रं ततः कृत्वा तदद्धिक् प्रोक्षयेद्येद आत्मानम् पद्मसंस्थं च हौं शिवाय ततो बहिः द्वारे दन्तिमहाकालौ गङ्गा च यमुनाधगौः श्रीवत्सम् वास्त्वधिपदिम् ब्रह्मणम् जगणम् गुरुम् शक्यनन्दौ यजन्मध्ये पूर्वादौ धर्मकादिकम् अधर्माद्यम् च वह्न्यादौ मध्ये पद्मस्य कर्णिके वामध्येष्टा च पूर्वादौ पूर्षदः ॐ हौं फलविकरिण्यै बलविकरिणी ददः बलप्रमथिनी सर्वभूतानां दमनी तदः मनोन्मनी यजे देदापठिमध्ये शिवाग्रदः शिवासनं महामूर्तिमूर्तिमध्ये शिवायज आवासनं स्थापनं च सन्निधानं निरोधनं सकलीकरणमुद्रदर्शनम् चार्घ्यपाभ्यकम् आचामाभ्यङ्गमुद्वर्तम् स्नानम् निर्मथनम् चरेद वस्त्रम् विलेपनम् पुष्पम् धूपम् दीपम् चरुम् ददेद आचामम् मुखवासम् च ताम्बूलम् हस्तशोधनम् चत्रचामर पावित्रम् परमीकरणम् चरेद रूपकल्पकेशैका सजपोजाप्यसमर्पणम् स्तुर्नदेर्हृदाद्यैष्ट <mí> देर, ज्ञेयम् नामाङ्गपूजनम् अग्निसरक्षो वायव्ये मध्यपूर्वादितन्त्रकम् इन्द्राद्यांश्च यजेच्छन्दम् तस्मै निर्माल्यमर्पयेद गुहायादि गुह्यभोक्ता त्वम् गृहाणास्मत्कृतम् जपं सिद्धिर्भवतु मे देव तत्प्रसादा त्वयि स्थितिः कर्म सदा सुकृत दुष्कृतं तन्मे शिवपदस्तस्य रुद्रक्षपय शङ्कर शिवो शिवो भोक्ता शिव सर्वमिदम् जगद शिवो जयति सर्वत्र यः यत्कृदम् यत् करिष्यामि तत्सर्वम् यत्कृतम् यत् करिष्यामि तत् सर्वम् तव त्वम् त्वादा विश्वनेदा च नान्यो नाथोऽस्ति मे शिव अधान्येन प्रकारेण शिवपूजाम् वदाम्यहम् गणसरस्वती नन्दिमहाकालो ध गङ्गया पवनास्त्रम् पूर्वादि वास्त्वधिपोद्वारिपूर्वादिदस्त्विमे इन्द्राध्या पूजनीयाश्च तत्त्वानि पृथिवी जलम् तेजो वायुर्व्योमगन्धो रसरूपे च शब्दकः स्पर्शो वाक्पाणिपादं च पायूपस्थम् श्रुदित्वजं चक्षुर्जिह्वाभ्राणमनो बुद्धिशापम् प्रकृत्यपि पुमान्नागो बुद्धिविद्ये कलाकालो नियत्यपि माया ज शुद्धविद्या जीश्वरश्च सदा शिवः शक्तिशिवश्च तान् ज्ञानी शिवो भवेत् यच्छिवस्य हरिब्रह्मसोऽहम् ब्रह्मास्मि ब्रह्मा शङ्कर भूतशुद्धिं प्रवक्ष्यामि यया शुद्धशिवो भवेद हृत्पत्मे सद्यो मन्त्रस्यान्निवृत्तिश्च कला इडा पिङ्कला द्वे जनाड्यौ प्राणोपानश्चमारुधौ इन्द्रो देहो ब्रह्महेदुश्चतुरस्त्रं च मण्डलम् वक्त्रमलाञ्छितं वायु मेघोद्धादगुणाशराः कृत्स्थानसादृश्यरुदम् शतकोटिप्रविस्तरम् ॐ ह्रीं प्रदिष्टायै ह्रूं ह्रः फट ह्रीं ह्रूं विद्यायै ह्रं ह्रः फट चतुरशीतिकोटीनामुच्छ्रयम् भूमितन्द्रकम् तन्मध्ये तद पृथ्वीम् तत्त शुद्धम् भवेद्ध्रुवम् वामदेवी प्रदिष्टा च सुषुम्नाधारिका तथा समानोदानवरुणौ देवता विष्णोकारणम् उद्धाताश्च गुणा वेदाश्वेदम् धान्यम् तथैव च एवङ्गुर्यात्कण्ठपद्ममर्धचन्द्राख्यमण्डलम् पद्माङ्गितम् द्विंशधिककोटि विस्तीर्णमौ स्मरेत चतुर्नवत्युच्छ्रयम् च आत्मानम् च अधोमुखम् तालुस्थानम् च पद्मम् च अघोरो विद्ययान्विदः नाभो नाभ्यो षड्यो नाभ्योष्ठह्योर्हस्तिजिह्वाध्यानो नागोऽग्निदेवता रुद्रहेदुस्त्रिरुद्धाता स्त्रिगुणारक्तवर्णकं ज्वालाकृते त्रिकोणं च च दुः कोटिशतानि च विस्तीर्णं च समुत्सेद्धं रुद्रतत्त्वं no विचिन्तयेद् ललाडेवैतत्पुरुष शान्तिर्यद्वलम्बुधाः कूर्मश्च कृकरो वायुर्देव ईश्वरकारणाद द्वि विरुद्धादो गुणौ द्वौ जूम्रषट्कोणमण्डलम् विद्वङ्गितम् च अष्टकोटिविस्तीर्णम् चोच्छ्रयस्तथा चतुर्दशाधिकम् कोटिवायुतत्त्वम् विचिन्तयेत् द्वादशदिसरसि जे शान्त्यधीतास्तधेश्वरः कुहूश्च सङ्गिनीनाड्यो देवदत्तो धनञ्जयः सिक्खेशानकारणं च सदाशिवैधि स्मृदः गुण एकस्ततोधातशुद्धस्फटिकवत् स्मरेद षोडशकोटिविस्तीर्णं पञ्चविंशतिकोच्छ्रयं वर्तुलं चिन्तये व्योम भूदशुद्धिरुदाहृदा गुणयो गुरुर्बीजगुरुशतयनन्तौ च धर्मतः ज्ञानवैरग्यमैश्वर्यैस्तदपूर्वादि पत्रके अधोर्ध्ववदने द्वेज पद्मकर्णिके सरम् वमाध्या अमविद्या च सदाध्यायेचिवाक्यः सत्त्वं शिवासने मूर्तिर्हि हौं विद्यादेहाय नमः बद्धपद्मा सनासेन सिदक्षोडशवार्षिकः से पञ्चवत्रकराग्रैश्वैर्दशभिष्टैव धारयन् अभयम् प्रसादम् शक्तिम् शूलम् खड्वाङ्गमीश्वरः दक्षै कराय वामकैष्ट भुजङ्गम् चाक्षसूत्रकम् दमरुकम् नीलोत्पलम् बीजपूरकमुत्तमम् जिच्छा सदाशिवः एवं शिवाच्च ध्यानी ध्यानि सर्वदा कालवर्जितः इहाहोरा वचारेण त्रीणि वर्षाणि जीवति दिनद्वयस्य चारेण जीवेद्वर्षद्वयम् नरः दिनत्रयस्य चारेण वर्षमेकम् स जीवति न मृत्युरुष्णे चैवतु कारके यदि श्रीगारूढे महापुराणे आचारकाण्डे शिवार्चननिरूपणं नावत् नामत्रयोविंशोऽध्यायः ओम्